नारायणीयं दशकम् 82 टु मीटर्स। मीटर्स् प्रद्युम्नो रग्मिनेयः स खलु तव कला शम्बरेणाहृदष्टं हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्यां तत्पुत्रो धनिरुद्धो गुणनिधिरवहद्रजनां रुक्मिपौत्रीं तत्रोद्वाहे गदस्त्वं न्यवधिमुसलिना रूक्म्यापि द्यूतवैरात् बाणस्य सा बलिसुधस्य महिता तु हिता किलोषा त्वत्पौत्रमे नमनिरुद्धमदृष्टपूर्वम् स्वप्नेऽनुभूय भगवन् विरहातुराभूद योगिन्यदीवकुशला खलु चित्रलेखा तस्याः सखी विलिखदी तरुणा न विदितं निशायामानेष्ट योगबलदो भवदो निकेताद कन्यापुरे दयितया सुखमारमन्दं चैनं कथञ्चन बबन्धुषि सर्वबन्धौ श्रीनारदोक्ततदुदन्तधुरन्धरोषैस्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः पुरीपालशैलप्रियदुहिदृनाथोऽस्य भगवान् समभूदव्रा निरुरुधे महाप्राणो युयुधानेन युयुधे गुहः प्रद्युम्नेन त्वमपि पुरहन्द्राजिशे निरुद्धाशशास्त्रे मुमुहुषित्वास्त्रेण गिरीशेदूदेद प्रमद कुलवीरा प्रमथिताधस्कंधकुसुम शरबाण सचिव सकुंबाडों भाडं नविवलेनाशु चापानाम चाप प्रसभमुपगदे चिह्नचापेधबाणे व्यर्थे यादे समेधोज्वरपधिरशनैरज्वरित्वज्वरेण ज्ञानी स्तुत्वा दत्त्वा तव चरितजुषाम् विज्वरं सज्वरोगात्प्रायोऽन्तर्ज्ञानवन्दोऽपि च बहुदमसा Raudraha रौद्रचेष्टा हि रौद्राः बाणं नानायुधोऽग्रं पुनरभिपदिदं दर्पदोषाद्विदन्वन् निर्लूनाशेषदोषं सपदि बुबुधूषा शङ्करेणोपगीतः तद्वाजाशिष्ट बाहुद्विदयमुभयदो nirbhayam तत्प्रियन्तं मुक्त्वा तद्दत्तमानो निजपुरमगमः सा निरुद्धः सहोषः मुहुस्तावच्चक्रं वरुणमजयो नन्दहरणे यमं बालानीदौ दवदहनपाने निलसखं विद्धिं वत्सस्ते ये बाणस्य समरे विभो विश्वोत्कर्षी तदयमवतारो जयति ते द्विजरुषा कृतलासवपुर्धरं नृग नृपं तृदिवालयमापयन् निजने द्विज भक्तिमनुत्तमामुपदिशन् पवने श सर्वत्र गोविन्दनाम सङ्कीर्तनम् गोविन्द गोविन्द